श्रीमदभागवत महापुराणादश स्कंध अषड्शोध्याय पूर्वाक्य वैराग्योक्ति श्रीभगवाच मलक्षण इमं कायम लब्ध्वा मध्धर आशी आनंदम परमात्मारमस्थम समुपैं गुणमय्याजीवुक्त ज्ञाननिष्ठाया गुणेषु मायामात्रेषु दृश्यमानेषु वस्तुतः वर्तमानोऽपि स न पुमान् युज्यते वस्तुभिर्गुणैः सङ्गम् न कुर्यादसुताम् शिष्णोदर्तृपाम् क्वचित् तस्यानुगस्तमम् स्यन्धे पतत्यन्धानुगान्धवत् एलहम् एलः समादिमाम् गाथाम् अगायत् बृहद्रवा उर्वशी निर्विन्न निर्विन्नशोकसंयमे त्यक्त्वाऽऽत्मानं व्रजन्तिं त्वां नग्न उन्मद्यवन्नृपः विलुपन्नन्वगाध्याये घोरे तिष्ठेति विक्लवः कामान कामान् तृप्तोऽनुजुसञ्चुल्लकान् वर्षयामिनिः न वेद यान्तिर्ना यान्तिरुस्याकृष्टचेतनः ऐरुवाच अहो मे मोहविस्तार कामकस्मलचेतस देव्या गृहीतकण्ठस्य नायौ खण्डा इमे स्मृता नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्योदितो मूयां मुषितो वर्षपूगानां बताहानि गतान्त गत गतान्युत अहो मे आत्मसम्मोहो येनात्मायोषितां कृतः क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः स परिच्छदमात्मानम् हित्वा त्रिणमिवेश्वरम् यान्तिं श्रियं चान्वगमम् लग्नौन्मत्तवद्रुदन् कुतस्कुतस्यानुभाव च तेज इसरत्वमेव वा योऽन्वगच्छम् श्रियं यान्तिम् खरवन्तादताडितः किं विद्यया किं तमसा किम् त्यागेन श्रुतेन वा किं विवेक्तेन मौनेन श्रिभिर्यस्य मनोहितम् सार्थस्या कोविदम् जिङ्घिङ्ग मां मूर्खम् पण्डितम् मानिनम् योऽहमेश्वरतां प्राप्य श्रिभिर्गोखरवज्जितः सेवतो वर्षपूगानमे उवस्याधिराशुमं न तृप्रत्यात्मभूकामो वह्निराहूतिभिर्यथा पुनश्चल्यापहितं चित्नं को नन्वो मोचितुं प्रभो नात्मा रामेश्वरमृते भगवन्तम् अथोक्षजम् बोधि तस्यापि देव्या मे सुप्तवाक्येन दुर्मते मनोगतो महाबोहो नापयाद्यजितात्मनः किमेतया नोपकृतं रज्ज्वा सर्पचेतस रज्जोस्वरूपाविदुषो ज्योहम् यदि जितेन्द्रियः क्वायम् मलीयशकायोदर्गन्ध्याद्यात्मको शुचिः क्व गुणासो मनस्याद्याम् ध्यासो विद्यया कृतः पित्रो किं स्वम् भार्याया स्वामिनोऽग्नेष्वगृद्धयोः किमात्मनम् किम् श्रेदामिति यो नावशीयेत तस्मिन् कले वरे मेध्ये तुभ्यनिष्ठे विसज्यते अहो सुभद्रम् शुनसम् सुस्मितम् च मुखं सिय त्वङ्मांसरुधिरस्नायुर्मेदो मज्जासितसंहतौ विन्मत्र पूये रमताम् त्रिमीणाम् कियदन्तरम् अथा पीनोपसज्येत स्त्रीषु श्रेणेषु चार्थवे निशेन्द्रियश्रीयोगान्मनसूक्षुभ्यति नान्यथा अधेष्टादश्रुताद्भावान्न भाव उपजायते असम्प्रयुज्यत प्राणान् शाम्यन्ति स्मृतिमितं मनः तस्मात् सङ्गो न कर्तव्यश्रीसुश्रैणेषु चेन्द्रियैः विदुषां चापि विश्रम्भ सर्वर्ग किं मा दिशाम् श्रीभगवानुवाच एवम् प्रगायन्यपदेवदेव स उर्वशीलोकमथो विहाय आत्मानमात्मन्यवगम्य मां वै उपारमज्ञान् विधूतमोह ततो दुःसङ्गमुत्सज्य सत्सु सज्जेत बुद्धिमान् तन्त एतस्य चिच्छिन्दन्ति मनोवाम् व्यासङ्गमुक्तिभिः तन्तोऽनपेक्षा मच्यक्ता प्रशान्ता समदर्शिनः निर्ममा निरहङ्कारा निर्द्वन्दा निष्परिग्रहा तेषु नित्यम् महाभाग महाभागेषु मत्कथाः सम्भवन्ति हितार्णाम् ज्युस्साम् प्रपुनन्त्यघम् ताये शृण्वन्ति गायन्ति हिनुमोदन्ति चादिताः मत्परा श्रद्धानाश्च भक्तिं विन्दति ते मयि भक्तिं लब्धुवत साधो किमन्यदवशिष्यते मय्यनन्तगुणे ब्रह्मन् यानन्दानुभवात्मने यथोपश्रयमाणस्य भगवन्तं विभावशुम् शीतम् भयम् तमोप्येति साधुन् संसेवतस्तथा न मध्योन्मज्जताम् घोरे भवाब्धो परमायणम् सन्तो ब्रह्मविद शान्ता नो दृढेवाप्सु मज्जताम् अन्नम् हि प्राणिनाम् प्राण आर्तानाम् शरणम् त्वहम् धर्मो वित्तम् यणाम् प्रेत्य सन्तोर्वाद विभ्यतोरणम् सन्तोजि सन्ति चक्षुंसी बहिरर्कसमुत्थित देवताबान्धवा सन्त सन्त आत्माहमेव च वेतसेनस्ततोऽप्येव मर्वस्यालोकनिस्पृया मुक्तसङ्गो महीमेतम् आत्मा रामश्चचार इति श्रीमद्भागवते महाप्राणे पारमुंशां सहितायाम् एकादशस्कन्धे सर्विंशोऽध्यायः